गणेशपुराणं क्रीडाखण्डम् अध्यायं सेवेण्टि फोर् क उवाच त्यक्ते गर्भे तया सिन्धौ बालो जनिमहाबलः तेजस्वी विकरालास्यो दीर्घबालस्त्रिलोचनः रक्तकेशजडाभारश्चक्रपाणिस्त्रिशूलभृद बालशब्देन तस्याधचकम्बे भुवनत्रयम् आजानु बाहुराक्रान्तु मियेषविष्टपत्रयं चुक्षुभे सागरस्तेन यादोभेर्मुनिसत्तमा तत्र स्थितस्तु बालोऽसौ समुद्रमुपशोषयद समुद्र उवाच जीवनाय मम सुदं नेष्य येन नृपालयं क उवाच इत्यानिनाय दम्बालं समुद्रो नृपमन्दिरं दम्पत्यो पुरतस्ताप्यप्रोच एवं द्विजस्तदा तव पत्न्यात्यादिगर्भो दुःसहत् मोदरे उग्रो बालस्ततो जातोखिल लोकभयङ्करः यस्य प्रथमशब्देन कम्पिदम्भुवनत्रयं नेत्राभ्यां नेक्षितुं शक्योत एवैनमुपानयं इत्युक्त्वा बालकम् उक्त्वार्दधे सागरस्तदा तदयनं कराभ्यां सा कडौ दध्रे नृपाङ्गनात् स्थापयित्वा ददौ प्रेम्णा स्तनपानं मुदान्विदा उभावानन्दयुक्तौ तौ दम्पती पुत्रदर्शनात् यथा चिरं योगनिष्ठो लब्ध्वा ब्रह्मामृतं परं तद आकारयामास्राह्मणान् सुहृदोऽपि च ज्योतिर्विद्धिर्विचार्यास्य सिन्धुरित्यभिधां शुभां चक्रे निपश्चास्य जातकर्मं यथाविधि कृत्वा ददौ तदो दानमनेकं हर्षनिर्भरः अनेकेभ्यो द्विजातिभ्यो वस्त्राणि विविधानि च दापयामास नगरे पताक्काभिरलं कृते वाद्यत्सु सर्ववाद्येषु शर्करां च गृहे गृहे गतेषु सर्वलोकेषु रक्ताङ्ग इति नाम च चक्रदुर्दम्पतीस्नेहा दधामात्यै समुचदुः उग्रायास्तनयश्चाय अयमुग्रेक्षण इदि नामनाख्यादो भविष्यति विप्रप्रसादन इति पौरा नाम प्रचक्रिरे तद सर्वे पौरजना उपदा विविधास्तदा ददुर्नृपाय दा सोप्येतान् दापयामास दा तत्क्षणाद् दा ववृधे बाधकशोध शुक्लपक्षे यथा यथाग्निर्वायुवेगेन वर्धते क्षणमात्रतः तथा स्वतेजसा बालप्रवृद्धो गगनं बालो वृक्षान् गृहगदान् बहून् उत्पाट्य पादयामास वामहस्ततलेनः अरण्ये क्रीडदा तेन उड्डीयचन्द्रहरिणं क्षणं जग्राह कर्षिचित् जलावतारमार्गे दुरुद्धे क्वापि करेणुना मुष्टिखादेन बिभिदे गण्डमस्यापपादसा एवं तस्याद्भुतं कर्मं दृष्ट्वा लोका विसिस्मिरे जहर्षजननी चास्य पिता एवं प्रवृद्धो बालोऽसौ सिन्धुनामा महाबलः उवाच पितरं यास्येत्तपस्तप्तुमहं नृप नृपा स्वर्गलोकं भूलोकं च रसातलम् आक्रमिष्ये वृद्धा युर्मै एवमाकर्ण्य तद्वाक्य मूच धुपितरौचदम् उत्कर्षं स्वस्य पुत्रस्य नित्यं प्रार्थयदे पिता जननि सर्वदेवेभ्यो व्रतदानादिनापिज एवमाज्ञामवाप्यैव न त्वातौ ययौवनं तत्र भ्रमन्ददर्शाध कासारं जलजर्युधम् तत्र स्थातुमनश्चक्रे विविक्रमिति हर्षितः यगाङ्कुष्टनभूमिष्ट ऊर्ध्वबाहू रविं स्मरन् शुक्रोपदिष्टं तं मन्त्रं जपन् पर्वतनिश्चलः दक्षिणे जानुनि सदा वामपादं निधाय च अञ्जलिं हृदि विन्यस्य ध्यायन्दिनमणिं तदा शीतवादातपजलवृष्टीनां सहनो दृढः वायुमात्राशनस्तौ वल्मीकाक्रान्तविग्रहः अस्तिमात्रावशिष्ठोऽपि जपत्येव महामनुं एवं तस्य व्यतीता यः शरदां द्विसहस्रकं तस्य सिन्धोशरीरोद्धास्ते पूर्भासो रविं तदा एवमुग्रं तपो दृष्ट्वा प्रत्यक्षो भूदिवाकरः उवाचपरमप्रीतोऽनुष्ठानेन तवाधुना वरं वरय चित्तस्थं दास्यामि जीवितावधि सिन्धुस्तदा भाषितं भानुना स्वयं देहभावं गदौ भास्करं प्रभुम् नत्वात्तत्पादकमलं बद्धाञ्जलि पुडो ब्रवीद नमस्ते दीननाथाय नमस्ते सर्वसाक्षिणे नमस्ते त्रिदशेषाय ब्रह्मविष्णुशिवात्मने नमस्ते विश्ववन्द्याय नमस्ते विश्वहेतवे नमस्ते वृष्टिबीजाय सस्योत्पादनहेतवे परब्रह्मस्वरूपाय सृष्टिस्थित्यन्धेदवे गुणातीताय गुरवे गुणक्षोभविधायिने सर्वज्ञाय ज्ञानदात्रे सर्वस्य पदये नमः धन्यं जन्मदेवेश वंशोमे मे जनकोऽपि च जननी च तपश्चापि यज्जातं तव दर्शनं वरद चेद्दिने षत्वम् देहि मे सर्वतो मृदिम् तव प्रसादात्सङ्ग्रामे जयेयम् सर्वदेवताः वर्तमानाद्देवणान्न मे मृत्युर्भवेदिति एवम् तस्य वरान् श्रुत्वा परितुष्टो विभावसुः उवाच निजभक्तं तमनुष्ठानभृशं सूर्य उवाच न भयं विद्यते दे देवयोनिभ्यो नृभ्य एवच च न स्थिर्यभ्यो न नागेभ्यो न दिवा न निशिक्वजिद नोषकालेन सन्ध्यायां मम वाक्याद्भविष्यति मरणं ते नृपः सुत गृहाणामृदभाजनं इदं यावत्कण्ठगतं निष्कासयदिदं यस्ते तस्मान् मृत्युर्भविष्यति देवो योऽवतरेत्कोऽपि धुन्वन् केशाग्रदो दिवं यस्याङ्गुष्टनखाग्रे स्युर्ब्रह्माण्डानां हि कोटयः स त्वं हनिष्यति विभुरन्यस्मादभयं तव मध्वरस्य प्रसादेन स्वं तृणमयं तव त्रैलोक्यं राजं ते दत्तं नात्र कार्या विचारणा क का उवाच एवं नाना वरान् दत्त्वार्दधे सविधा तदा सोऽप्यानन्दसमायुक्तो जगाम निजमन्दिरं जननी च पिता तस्य मूर्धन्याघ्रायापदुर्मुदम् ऊचतुस्तं तदा पुत्रं विरहात्रेन्नवर्जितौ चिन्तया कृष्यतां यादौ पश्य पुत्रदशामिमां तयोः पादौ प्रणम्याः सपुत्रौ हर्षनिर्भरः प्रसन्न मह्यं त्रैलोक्य स्वामितामदाद साधयिष्ये तद्वराक्तां न चिन्तां कर्तुमर्हत इति श्रीगणेशपुराणे वरप्रदानं नाम चतुस्सप्ततितमोऽध्यायः ओम्